धन्यमानमस्यामेध्यम् अपमात्मानम् विजमानस्य हन्तु शिवानः सन्तु प्रतिषष्ठदस्य शण्णो माता पृथिवीतोकसाता शण्णो देवीरभिष्टये आपो भवन्तु पीतये शयोरभिस्रवन्तु नः वैश्वानरस्य रूपम् पृथिव्याम् परिस्रसा श्योनवाविशन्तु नः ृथिव्याः सन्दज्ञानेनोदशीतम् बभूवत् ओषान्कृष्णमवत् कृष्णमूषाः कुर्वाणो यत्पृथिवीमचरः गुहाकारमासुरूपम् प्रतीत्य तेऽन्यक्तमिकसम्भरन्तः सेवेम शरदः सवीराः ऊर्जम् प्रसर्ग्यारसमाभरन्तः शरञ्जीवैव शरदः पुरोगेः वम्रेभरणवित्तम् गुहासु सोऽकवर्जपजा भवामः प्रजापतिसृष्टानाम् प्रजानाम् क्षुतोपहत्ते तु विपन्नो अस्तु उपप्रभिन्नविषमोर्जम् प्रजाभ्यः सूर्यङ्ेभ्यवरसमाभरामि यस्य लोकम् बिभ्रति मामचिन्तते गुहा प्रविष्टाग शरीर से मध्ये तेदंभर अशंबारिषेम यप्य मध्ये उर्वेम पश्यज्जग्रतिष्ठा तत्ष्कर अर्ण पृथिव्या प्रसरण याज्जगद प्रतिष्ठा उर्वेणि विश्वजन से भर्ती तानः शिवाः शर्कराः सन्तु सर्वाः अर्गेरेणश्चन्द्रिरण्यम् अर्धः सम्भोधम तत्सम्भरन् उत्तरतो निधाय अधिप्रयच्छन्तुलिकुन्तलेयम् अश्वारोपणम् कृत्वा यतः स्वर्धे तिष्ठः देवेभ्यो निधाय तर्तेऽन्यक्तमिक सम्भरन्तः शरदः ऊर्जः पृथिव्याध्यक्षितोऽसि परस्पते शलवनिशो विरोह त्वया वयमिषमोर्जम् वदन्तः गायस्तोषेण गायत्रिया क्रियमाणस्तयत्ते पर्णमपदत्रीयस्त्रैषि सोऽयम् पर्णः सोमपर्णाद्धिजातःध्यै देवानाम् ब्रह्मपादम् उपाशिणोः शुश्रभावे श्यतो ये ततोपाविशतु ब्रह्मवर्चम् तत्सम्भरगस्ततमरुन्धीयसाक्षात् ययाते षष्टस्याग्नेः हेतिमशमयप्रजापतिः सामप्रदाय समेकम् शान्ते सलाम्याम् यत्ते षष्टस्य यदः विषङ्कतम् भाच्चज्जातवेदः पुरुन्नागमनप्रभाहितान्तस्य हृदयगाच्छिन्दम् जातवेदः मरुत्वाभ्यस्तमयित्वा एतत् एतत् शनैः सम्भरामि सात्मा अग्ने सकृतया भवेयः चित्रयानस्वर्धात्सम्भृता विहत्यः शरीरमपि सर्गस्कृतास्थः प्रजापतिनायज्ञाः प्रजाते अश्वत्थार्थव्यहाधिजाताम् अर्ग्ने स्तनो ज्ञकाकम् सम्भरामि शान्तगौरिपुंशमी गर्भम् अग्नये प्रजनयितवे यो अश्वत्थः स मे गर्भः आरोहत्वे स च वन्देहरा विब्रह्मणात्येतभिः सह यन्तासमभरञ्जातवेदः यथाश्रयम् भवते सन्न्यक्तम् कदम्भरस्येत शिवः प्रजाभ्यः पुरुन्नो लोकमरुणे च यतो प्रवेदये कमयेमेऽध्याय वचो वन्ताय विष्णेः यतोभयमभयम् तन्नो अस्तु आदेवानि देहेद्यान् समिधाग्नि पश्यत श्रुतैर्बोधयितास्मिन् हव्याजहोत मत्त्वाग्ने हविष्पतेः घृताचेर्यन्तु हर्यता गृहस्व समिधो मम तन्ता समिद्भिरङ्गिनः घृतेन वर्धया मधे बृहच्छोचायमिष्ठ्या सिध्यमानः प्रथमो न धर्मः समर्तुभिरजते विश्ववालः शोतिष्केशो घृतनिर्णित्वाकः अग्निर्यजथाय देवान् घृतप्रदेको घृतयोजग्निः घृतैः समिद्धो घृतमस्यान्नम् घृतप्रशस्ता धरिता वहन्ति घृतम् आयुक्ता हृदयो निरधित्वातव्यम् पुत्रमभिरक्षदाम् त्वामग्ने समिधानय विष्ठा देवादूतञ्चक्रियहव्यवाहम् रुद्रे सम् हृदयो निमाहुतम् यांसिपार्थिवापिष्ठसे घृतप्रदेकम् वरदस्य सोषणम् अग्निम् मित्रम् न समिधानलिञ्जते शुक्रवर्णामुदुमायगुंसतेयम् प्रजाग्ने संवादय आशाश्चेहिसवेत् अन्वादितम् धरुणैरम् अन्तर्वक्त्रे ज्यम् जातवेदसम् अध्वराणाञ्जनयः पुरोगाम् आराहदम् दशतकं युषावर्कसा सह ज्ञीवन्तमुत्तरामुत्तराकुसमारुशमहम्बोर्नमाजै यज्ञै यथायजैः देवा वहन्तदे तत्सत्यै यद्वैरम् बिभृषः विरञ्जनयिष्यथः प्रेम प्रातः प्रजरिष्येथे प्रजादे प्रजनयिष्यथः शुद्ब्रह्मार्गदेन सुवर्गे लोके अजरात् सत्यमुपैमिपैमि यच्छामि शल्के रविन्धानः उभौ लोकौ सलेमहम् उभयोर्लोकयोरुद्ध्वा अयमत्यन्तराम्यहम् जातवेतभुवनस्य रेतः च तमसुरिद्ध्यते अग्निवश्वच्छ व्यवाहम् शमीगर्भाजनयमयो भोः अयम् तेजो वृत्तयः ययो जातो अरोचथाः कण्डानन्दज्ञारोह अथानावर्धया रयम् अवेतवेतविदशः हे त्रस्थपुराणावेतलोकनाः अदाजै यमावसानम् पृथिव्याः अक्रण्मम् पितलोकमस्मै अग्ने भस्मास्सज्ञेः पुने समसिकामधरणम् मयिरे कामधरणम् भूयात् संवत्सजा विहृदयानि सर्वम् सृष्टम् मनो अस्तु वः सर्वम् सृष्टः प्राणो अस्तु वः यावप्रियास्तनुवः प्रियाहृदयानि वः आत्मानो अस्तु संप्रियः प्रियास्तनवो मम कल्पेतान्त्या वा पृथिवी कल्पन्तावा मपोषधीः कल्पन्तामज्ञयः पृथग मम ज्येष्ठायसंपनताः हे ज्ञयः समनसः अन्तराद्या वा पृथिवी वासन्ति अभिकल्पमानाः इन्द्रमिव देवा अभिसंविशन्तो विवस्त्वा वीर्येण हेम्यैवम्ना अन्तरिक्षस्य सर्वपशुमातथे अजीजनम् नमतम् मत्या सह अश्रयमानम् तरणिम् वेणुजम्भम् दश स्वसारो अग्नवः समीची उमागुम् सञ्जातमभितगुणभन्ताम् प्रजापदेऽस्त्वा प्राणेनाभिप्राणिमे ओष्टः पोषे न मह्यम् दीर्घायित्वाकशरसारदाय शतगुम् धनर्घायिषयमर्तसे अहम् त्वदस्मि मदसि त्वमेदरे ममासिजोनिस्तमयोनिरस्मि ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोकर्जातवेदः प्राणे त्वामृतमादधामि अन्नादमन्नाज्ञाय गोप्तारङ्गत्यैः सुकारिकपत्योविदहन्नादेः उषदः श्रेयसे श्रेयसे अग्ने सुपत्रागम् अवबाधमानः स्मा उमा उपतिष्ठन्तु राजः आभिष्प्रजातिष्ठत विश्वरूपी मधोदः सपत्प्रतिवृत्तरो यस्ते देवेषु हिमासुभर्गः यस्तात्मा पजुप्रविष्टः पुष्टिर्यादे मनुष्ये शुभप्रथे मया नो अग्ने दृशमाननेः पृथिव्याः पर्यन्तरिक्षात् वारात् पशुभ्यो अध्यौषधीभ्यः यत्र यत्र जातवेदः सम्बूथ ततो अग्ने जमाननेः राजीवनम् प्रतिधम्बेहि विद्वान् मर्गेरग्ने चतुष्पदे अन्वज्ञनुषसामग्रवक्ष्ये अन्वहारो जातवेदाः अनतो पुरुत्रा च रश्मीर अनुद्या वा पृथिवी आदतान विक्रमस्व महागुम्पसिषम्बानुषेभ्यः कृषुलोगेषु जागृहे पृथिव्याः संविधानेनोदधीतम् बभूवतुः तयोः पृष्ठेसि तदु जातवेदाः शम्भोः प्रजाभ्यस्तवे नः कारणम् त्वामृता दधामि अन्नादमन्नाभ्याय गोक्तारङ्गुप्तैः यत्ते शुक्रशुक्रम् वर्तः शुक्रातरोः शुक्रम् जोधरजस्रम् तेन वेदे हितेन अर्गिनाग्ने ब्रह्मणा आनशे अव्यानसे सर्भमानिर्व्यानसे नर्यप्रजाम् मे गोपाय अमरर्ताय जीवसे जाताम् च निश्यमाणाम् च अमरे सर्ते प्रतिष्ठिताम् असर्वमिदम् मे गोपाय नरसमन्वविहायुषे अदर्भायोशीकृतमो अभिषण्णः पितम् गणो षर्गस्य पशोन्मे गोपाय दिवाजोदे चतुष्पथः अष्टाशभाश्रैः एकैषभाशुकाः सम्पदसाोपाय एष्याः सभासरः तानिन्द्रियापदः कुरु समायोसदाम् हरे गोपाय रमुषयस्त्री विदाविदः विदः सामानिजोगुम्हि सा हि श्रीरमदासदा यदुष्यखण्डाय मदि सुपेशाः काभु पदे काभुवनस्य मध्ये महदे सौभगाय अह्यन्ध्यजमानाय कामान् इहैव सन्तत्र सतोयः रामेण वाचा मनसा विभर्मिसन्तमायुर्माप्रहासीत् ज्योतिषा वैश्वानयेनोपतिष्ठे पञ्चथाग्नेन्द्रियक्रामदेष्टा प्रजापतेः रोहद्रोहिणी योग्ने प्रतिष्ठितिः न वेतान्यहानि भवन्ति न भवेदु वर्गालोकाः यदेतान्युपयन्ति नवस्वेम तत्सु वर्गेषु लोकेषु तत्रिनः प्रतिष्ठन्तोयन्ति अग्निष्टोमाः परः सामानः कार्या इत्याहुः अग्निष्टोमसंविदस्सु वर्गो लोक इति द्वादशाज्ञष्टोमस्य स्तोत्राणि द्वादशमासाः संवत्सरः तन्न सोऽक्ष्यम् उक्षा एव सप्तदशाः परः सामानकार्याः अशगो वा मुक्तानि पशूनामवरुध्यै विश्वजितभिजितामग्न्यष्टोमौ मुक्षाः सप्तदशाः परः रिच्येते एकजागौरतिरिक्तः एकजाः स्वर्गोऽपि लोको ज्योतिः स्वर्गमेव तेन लोकमभिजन्ति यत्परघुम्नाथन्तरम् तत्पथमेऽहम् कार्यम् बृहद्बीरे वैरूपम् तृतीरे वैराजम् चतुर्थे पञ्चमे वैपतकम् षष्ठे तदपृष्ठे अभ्यो नयन्ति सन्तन एते ग्रहारिष्यन्ते अनिग्राह्या परः लोकान् सन्तन्वन्ति मिथुना एते ग्रहारिष्यन्ते अनिग्राह्याः परः सामधु मिथुनेव ते विलमान अवलम्भते बृहत्पृष्ठम् ैव सुवर्गम् लोकय्यन्ति त्रयस्त्रिपुंसि नाम सा भवति त्रयस्त्रिपुंशद्वै देवताः देवता एवावरुन्धते एवादितःपराञ्चपंसम्वत्सरमु भयन्ति न हीनन्ते स्वस्ति समश्नुपते अथ एव एतद्वामुतोर्वान् च मुदयन्ति यदेवम् खलु वा प्रजापतिः सह देवेन्द्रः स तु देवेभ्योणयन्ति सन्तचन्मा एते ग्रहाः यत्परः सामानः शालागे पक्षसी एव कुम्सम्वत्सरस्य पक्षसी यदेतेन गृह्येरन्ने विशोचेतम् वत्सरस्य पक्षसे व्यवस्त्रं देयाता आर्तिमार्क्षेयुहम् एते दृष्टन्ते यथा शाला ये पक्षसे मध्यमम् न पुंशमभिसमायच्छति एव पुंसम् वत्सरस्य पक्षसे निवा कीर्तिमभिसन्त आर्तिमार्च्छन्ति एकभिपुंसमहद्भवति शौर्येतदः पशुरालभ्यते सौर्यो जग्राह्यालिक्ष्यते अहरेव रूपेण समर्थयन्ति अथो अन्ध एवेण वयक्रियते सप्तैतदः निग्राह्यालित्यन्ते सप्तमेशीर्ण्याः प्राणाः तथा वा नित्यशिरः प्रजानाम् शेषण्येव प्रजानाम् प्राणान् दधाति तस्मात् सप्तशेषाणाः इन्द्रो वृत्रगो हत्वा असुरान् पराभाव्य स इमान् लोकानभ्यनयत् तस्यासो लोकोऽनभिजितः तम् विश्वकर्मा भूत्वाभ्यजयत् यद्वैवे विश्वकर्मणो लिख्यते स्वर्गस्य लोकस्याभिजित्यै प्रवायतेऽस्मान् लोकाच्च वन्दे येन एश्वकर्मणम् गृह्णते आदित्यश्वागृह्यते यम् वा अदितिः अस्यामेव प्रचतिष्ठन्ति अन्यान्यागृह्येते विश्वान्येवान्येन कर्माणि गुर्वाणायन्ति अस्यामन्येन प्रचतिष्ठन्ति का वा परार्थार्थवत्सरस्यान्यान्यागृह्येते यज्ञस्येवान्तम् गत्वा भयो लोकयोः प्रतिष्ठन्ति अर्घ्यमुखम् भवति अन्नाद्यश्चावरुद्धै एकविपुंश एष भवति एतेन वै देवारेकविपुंशेन दे आदित्यमिदमुत्तमकुंसुवर्गम् लोकमारोहयन् समालेश इददेकविकुंशः तस्य दशावस्तादहानि दश पुरस्तानात् समानेण विराज्युभयदर्प्रतिष्ठितः विराजिवारेण उभयदर्प्रतिष्ठितः तस्मादन्तरेमो लोकौ यन् सर्वेषु तु वर्गेषु लोकेष्वभितमेति देवावाहादित्यस्य तु वर्गस्य लोकस्य पराजोदिपादादिभयोः पञ्चन्तोभिरतृगम् हृत्यै देवावादित्यस्य तु वर्गस्य लोकस्य अवायोपपादादिभयोः तम् पञ्चभिरस्तुभिरुदवयन् तस्मादेकभिपुंसे हत्पञ्चदिवाकीर्त्या्याणि क्रियन्ते रश्मयोगे दिवाकीर्त्यायत्रे एका एकायत्रेषु पोमनयोः महादिवाकीर्त्यकम्भोजपृष्ठम् कर्णम् ब्रह्म सामम् भासो अग्निष्टोमः अथैतानि पराणि स्मरे देवाः आदित्यगम् सुवर्गम् लोकमपालयन्लयन् तत्पराणाम् परत्वम् पारयन्तेन पराणि एवम् वेदा अथैतानि स्फलानि स्मरेर्वे देवाः नित्यगम् सुवर्गम् लोकमस्पालयन् यदस्पालयन् तत्स्वराणाग्यस्परत्वम् स्मारयन्ते न विस्फराणि एवम् वेद अप्रतिष्ठाम् वा एते गच्छन्ति एषाकम् संवत्सरे नाप्यते च एकादशम् न्याप्यते वैष्णवम् वा वनमालभन्ते यज्ञा वै विष्णुः यज्ञमेवालभन्ते प्रतिष्ठित्यै ऐन्द्राज्ञमालभन्ते इन्द्राज्ञै वै देवानामयादयामानौ हे एव लभन्ते देवता देवावरुन्धते या वा पृथिव्याः धेवमालभन्ते या वा पृथिव्याचतिष्ठन्ति वायुव्यम् वत्समालभन्ते देवता अवरुन्धे आदित्यामयम् वशामालभन्ते इयम् अस्यामेव प्रचतिष्ठन्ति वरुणेवालभन्ते मित्रेणैव यज्ञस्य स्पष्टकम् शमयन्ते वरुणेन सुनिष्ठम् राजा प्रत्यन्तोपरम् महाम्रतालभन्ते राजा प्रत्योनिग्राह्यो दिह्युते अहरेव रूपेण समर्थयन्ति अथो अन्धदेवेश परिक्रियते आग्नेयमालभन्ते परिप्रज्ञाः अजपे त्वानुमायेते पूर्वैर्वासैरवरुन्धते यदेते रव्याः पशवाः लभ्यन्ते उभयेताम् पशूनामवरुध्यै यद्रिक्तामेकादशिनी मादभेरन् आप्यम् भ्राद्र्यमभ्यैरिच्येत यद्बौ द्वौ पशु समस्येयोः कनीजायः कुर्वीरन् यदेते ब्राह्मणवन्तः पशवः लभ्यन्ते भ्रात्रियम्भा्यमभ्यरच्यते नगनीयायः कुर्वते प्रजापतिः प्रजा सृष्ट्वा वृत्तो तम् देवाभूता नागमवसन्तेनः सम्भृत्य एनेन अभिरजन् महानमवभेति तन्महाभ्रतस्य महाप्रदत्त्वम् महद्ब्रवि तन्महाव्रतस्य महाप्रदत्त्वम् महता ब्रदवि तन्महावदस्य महावदत्वम् पञ्चविकुंशस्तोर्विगुंशव्यधमानः संवत्सरः एतस्मिन् संवत्सरेऽधिप्रायत अदन्नम् पञ्चविकुंशमभवत् मध्यदः क्रियते मध्यदो ह्यन्नमभिदन्धिनोति अथो मध्यद एव प्रजानामोद्धीयते अथ विद्वाजमन् प्रदः क्रियते तस्मादुदन्ते प्रजाः समेधन्ते अन्तः क्रियते प्रजननादैवस्ति पराजास्तुवन्ति तस्मात्तत्सेव न मेद्यतोऽनुवेद्यति न दृश्यतोनुकृष्यति पञ्चदशोऽन्यः पक्षो भवति सप्तदशोऽन्यः तस्माद्वयान्यतरमते अन्यतरीयते वंशविकुंसात्मा भवति तस्मान् मध्यः पशवो बलिष्ठाः एतविपुंसम् सर्वेण सहस्तुवन्ति सर्वेण क्यात्मना एकैकामुच्छिंशन्ति आत्मनिङ्गानि बद्धानि नवानेतेन सर्वः पुरुषः लोमानि ततो नखान् परिमादः क्रियन्ते तान्येव तेन प्रत्यप्यन्ते औदुम्बरस्तर्पो भवति ऊर्घ्वान्नमुदम्बरः ऊर्ध्वदेवान्नाद्यस्यावरुद्धे यस्य तत् असद्यमनभिजज्ञः सदेव नागुम् साम्यक्षे कल्पसत्यमभिजयाने न सर्पमायुश्चाद्गायेत् कल्पसत्यमेवाभिजयति यस्य सर्पसत्यमभिजज्ञः स्यात् स देवालाघुम् साम्यक्षे कल्पसत्यम् मा पराजयते न सर्पमालुश्चाद्गायेत् न सर्पसत्यम् महादेवान्नाद्यस्यावृद्ध्यै देवाहुराः संयत्ताहन् आदित्य व्यायच्छन्त तम् दे। देवाः समजयन् ब्राह्मणश्च शूद्रश्च धर्मकर्त्य व्यायच्छेते दैव्यो वे वर्णो ब्राह्मणः असुर्यः शूद्रः निवेदात्सु विवेदभूतमकर्नित्यन्यतरो ब्रूयात् किमबुद्दासीकारिण किमेदुर्भूतमत्र नित्यन्यतरः यदेवैषा संकृतैाद्धि तदन्यतरोऽभिष्येनादे यदेवैषान्दुष्कृतैयाराद्धि तदन्यतरो वहन्ति ब्राह्मणः सञ्चयति अमुमेवादित्यम् भ्रातव्यः कथम् विन्दन्ते वो